5 खण्डं अध्यायम् 38 अध्यायं तर्टि एय्ट् गृप्समदप्रोक्तमानसपूजाकथनं श्रीगणेशाय नमः विसमद उवाच विघ्नेशवीर्याणि विचित्रकाणि सुमागधर्बन्धिजनैः स्मृतानि श्रुत्वा समुत्तिष्टगजाननत्वं ब्राह्मे जगन्मङ्गलकं कुरुष्व एवं मया प्रार्थितविघ्नराजश्चित्तेन चोद्धाय बहिर्गणेशः तं निर्गदम् वीक्ष्य न मन्दिदेवाः शम्भुवादयो योगि मूकास्तथाहम् शौचादिकं ते परिकल्पयामि हे रम्भवै दन्तविशुद्धिमेवं वस्त्रेण सम्प्रोञ्च्य मुकारविन्दं देवं सभायां विनिवेशयामि द्विजादिसर्वैरभिवन्दितं च शुकादिभिर्मोदसुमोदकाद्यैः सम्भाष्य चालोक्य समुद्धितं तं सुमण्डपं कल्प्य निवेशयामि रत्नैः सुदीप्तैः प्रतिबिम्बितं तं पश्यामि चित्तेन विनायकं च तत्रासनं रत्नसुवर्णयुक्तं सङ्कल्प्य देवं विनिवेशयामि सिद्ध्या च बुद्ध्या सह विघ्नराज पाद्यं गुरुप्रेमभरेण सर्वैः तोयं सुवासैरचितं गृहाण चित्तेन दत्तं च सुखोष्णभावं शुद्धेन वस्त्रेण गणेशपादौ सम्भोञ्च्य दुर्वादिभिरर्चयामि चित्तेन भावप्रियदिनबन्धो चित्तं विलीनं पुरुदे पदाब्जे कर्पूरकैलादिसुवासितं तु सुकल्पितं तोयमथो गृहाण आचम्यतेनैव गजाननत्वं कृपाकडाक्षेण विलोकयाशु प्रवालमुक्ताफलकारकाध्यैः सुसंस्कृतं ह्यन्तरभावकेन अनर्घ्यमर्घ्यं सफलं कुरुष्व मया प्रदत्तं गणराजडुण्ढे शुद्धं त्रियुक्तं मधुपर्कमाद्यं सङ्कल्पितं भावयुदं गृहाण तोयेन चाचम्यविनायकत्वं भक्तांश्च भक्तेश्च सुरक्षयाशु द्रव्यैर्युदं चम्पकजाधिकाध्यायिस्तैलं मया कल्पितमेव ढुण्डे दत्तं गृहाणाशु विमर्दयामि सर्वाङ्गमानन्ददसेवनाय देवं सुखोष्णेन जलेन चाहं सर्वाद्यतीर्थाकृतकेन ढुण्ढिम् चित्तेन शुद्धेन जस्नापयामि स्नानं मया दत्तमधो गृहाण ततः पयस्नानमचिन्त्यभाव गृहाणतो यस्य तथा गणेश प्रकल्पितं नाथ जलस्य चाध तदो हृदस्नानमपारवन्द्य सुदीर्थजं विघ्नहरप्रसीद गृहाणचित्तेन सुकल्पितं तु तदो मधुस्नानमधो जलस्य सुशर्करायुक्तमधो गृहाणस्नानं मया कल्पितमेव ढुण्डे तदो जलस्नानमकापहन्तर्गणेश माया मायाभ्रमवारणाशु सुयक्षपङ्कस्थमदो गृहाणस्नानं परेशाधिपदेतदश्च कमण्डलौ सम्भवजं संभवजं स्नानं विशुद्धं परिकल्पितं ते दुग्धेन सूक्तैर्मनसा सुदीर्घैः सम्पूज्य दूर्वादिभिरल्पभावैः सङ्ख्यादिघैर्मण्डलभूदब्राह्मणस्पद्य कैस्त्वामभिषेचयामि तदसुवस्त्रेण दुः प्रोञ्छनं त्वं गृहणचित्तेन मया सुकल्पितं ततो विशुद्धेन जलेन चाचान्दमेव धुण्डे कुरु विघ्नराज अग्नौ विशुद्धे प्रगृहाणवस्त्रे मौल्यादिगेदे मनसा मया वै दत्ते परिच्छाद्य निजात्मदेहम् ताभ्यां मयूरेश जनांश्च पालय आचम्यविघ्नेश पुनस्त्वमेवं चित्तेन दत्तम् सुखमुत्तरीयम् भक्त्या गृहाणप्रतिपालयाशु न भो यथा तारकसंयुतं किम् यज्ञोपवीतं त्रिगुणस्वरूपं सौवर्णमेवं ह्यहिनाथभूतं भावेन दत्तं गणनाथतत्त्वं सौत्रं गृहाणोद्धृतिकारणाय आचन्दमेवं मनसा कुरुष्व दत्तं मया तीर्थजलेन ढुण्ठे भावेन कां पाखी पाहि विश्वं प्रभो खेलकृदं सदाते ते शाभमधो गृहाण सिन्दूरकं मनसा प्रदत्तम् सर्वाङ्गसंलेपनमादरात्वं हेरम्बचित्तेन कुरुष्वपूर्णं साहस्रशीर्षं मनसामयत्वं दत्तं किरीडं तु सुवर्णजं वै अनन्दरत्नैखचितं गृहाण ब्रमेश्यते मस्तकशोभनाय विचित्र कनकेन ढुण्डे युतानि चित्तेन मया परेश दत्तानि नाना नानापदकुण्डलानि गृहाण शूर्पश्रुतिभूषणाय शुण्डाविभूषार्थमनन्दकेलिन् सुवर्णजं कञ्चुगमा गृहाण रत्नैश्च युक्तं मनसा मया यद्दत्तं प्रभोत्तत्सफलं गुरुष्व सुवर्णरत्नैश्च युधानि सम्प्रकल्प्यैकदन्दाभरणानि चूडा कृदिनी परेश समर्पिते रथशोभनार्थम् रत्नैः सुवर्णेन कृतानि यानि चत्वारि संकल्प्य गृहाणतानि शम्भूष्रयत्वं कटकानि नाथ चतुर्भुजेषु ह्यज विघ्नहारिन् विचित्ररत्नैःखचितं सुवर्णसम्भूतकं गृह्यमया प्रदत्तम् तथाङ्गुलिष्वेव यदङ्गुलीयं गणेशसंशोभय तत्परे श रत्नायुर्विचित्रैकचितानि ढुण्ढे केयूरकाणिह्यथ कल्पितानि सुवर्णजानि प्रमदाधिनाथ गृहाणदत्तानि तु बाहुषु त्वम् प्रवालमुक्ताफलरत्नजास्त्वं सौवर्णसूत्रैश्च गृहाणकण्ठे चित्तेन दत्ता विविधाश्च माला हृद्योदरे शोभय विघ्नराज चन्द्रं ललाटे गणनाथपूर्णं वृद्धिक्षयाभ्यां तु विहीनमाद्यं संशोभयत्वं वरसंयुधं ते भक्तिप्रियत्वं प्रकटीकुरुष्व चिन्तामणिं चिन्तितदम्परेष्य हृद्देश गं कान्तिमयं गुरुष्व मणिं सदानन्दसुखप्रदं च विघ्नेश दीनानधपालयस्व नाभौ पणीशं च सहस्रशीर्षं संवेष्टनैव गणाधिनाथ भक्तं सुभूषं कुरुभूषणेन दत्तं वरं तं सफलं परेश देशे कटौरत्नसुवर्णयुक्ताम् काञ्चीं शुचित्ते न च धारयामि विघ्नेश्य ज्योतिर्गणदीपिनीं ते पाहि दयाब्दे गणेश्यते रत्नसुवर्णयुक्ते मञ्जीरके नूपुरके तथैव सुकिङ्गिणीनादयुधे सुबुद्ध्या सुपादयो शोभयमे मे प्रदत्ते इत्यादिनाविधूषणानि भक्ेच्छया मानसकल्पितानि सुभूषयाम्येव तवाङ्गकेषु रत्नादि धातुप्रभवानि ढुण्डे सुचन्दनं रक्तमोघवीर्यं सुकर्षितं ह्यष्टसुगन्धमुख्यैः मया युधं कल्पितमेकदन्दगृहाणते त्वङ्गविलेपनार्थं लिप्तेषु वैचित्रमधाष्टगन्धैरङ्गेषु ते कं मां पाहि चित्तेन विनायकत्वं रक्तं तदो वर्तुलमेव बाले आज्येन वै कुङ्गुमकेन रक्तान् सूक्ष्माक्षतांस्ते परिकल्पयामि भाले गणाध्यक्ष गृहाण पाहि भक्तान् सुभक्तिप्रिय दीनबन्धो गृहाणभोश्चम्पकमालधिस्तलपङ्कजान्यम्बुजपङ्कजानि मया प्रदत्तानि च मल्लिकाश्च गणेशपुष्पाणि च रक्तकानि पुष्पोपरि मनसा गृहाण हे रम्भमन्दारशमीदलानि दत्तानि चित्तेन सुकल्पितानि सङ्ख्याधिगानि प्रणवाकृतेते। कृते ते धूर्वाङ्गुरान् वै मनसा प्रदत्तान् पञ्चत्रिपात्रान्विदकार्द्रभूतान् स्वेदांश्च विघ्नेश्वरसङ्ख्यया त्वं हीनां सर्वोपरि सङ्गृहाणा दशाङ्गभोदम् मनः धूपं प्रदत्तं गणराज चग्नौ मां पाहि सौरभ्यकरं परेश सिद्ध्या सह संगृहाण दीपं सुवर्त्यायुधमादरा ते दत्तं मया मानसकं गृहाण विघ्नेशकर्पूरभवं गृहाण भोज्यं दुलेख्यं गणराजपेयं चोष्यं च नानाविध षड्रषाढ्यं हेरम्बनैवेद्यमधो गृहाण सङ्कल्पितं पुष्टिपदेह्यपारम् सुवासिदम्भोजनमध्यभागे जलं मया दत्तमधो गृहाण सदात्मतीर्थं मनस्सा गणेश पिबत्स्वविश्वादिकतृप्तिकारिन् तधः करोद्वर्तनकं गृहाण सुगन्धयुक्तं मुखमार्जनाय सुवासितेनैव सुतीर्थजेन सुकल्पितं भक्तियुतं च ढुण्डे आचम्य सर्वेष सुवासितं च दत्तं मया तीर्थजलं पिबस्व सङ्कल्प्य विघ्नेश ततः परं ते सम्प्रोञ्छनं हस्तमुखे करोमि द्राक्षादिरम्भाफलचूदकानि खर्जूरकर्कन्दुकदारिमानि स्वादेन युक्तानि मया गृहाणसङ्कल्प्य फलानि ढुण्डे पुनर्जलेनैव करादिकं क्षालयामि मनसा गणेश सुवासिदं तोयमधो पिपस्व मया प्रदत्तं मनसा परेश अष्टाङ्गयुक्तं गणनाथदत्तं ताम्बूलकं ते मनसा मयावै। सुकल्प्य विघ्नेश्वर सङ्गृहाण नाधासकृतुण्डविशोधनार्थं ततो मया कल्पितके गणेशमहासनिरत्नसुवर्णयुक्ते शमीशकार्पासकयुक्तवस्त्रैरनर्घ्य का संचादितके प्रसीद भक्त्या त्वदीयावरणं परेष्य सम्पूजयामि मनसा यथावद नानोपचारैः परमप्रियैस्तु त्वत्प्रीतिकामार्थमनाथबन्धो गृहाणलम्बोदरदक्षिणां तामसङ्ख्यभूतां मनसा प्रदत्ताम् सुवर्णरत्क्यभूता प्रभो जगत्द सुपा हीजोपचाराविधा वी गृहा छात्रकदराई चित्न दत्ताधुे ह्यपरसख्याजंगस्ते दानस्य नानाविधरूपकांस्ते दत्तान्मया वै मनसा गृहाण गोभूमिकाद्यान् स्थिरजङ्गमांश्च हेरम्ब मां तारयमोहभावाद मन्दारपुष्पाणि शमीदलानि दूर्वाङ्गुरांस्ते मनसा ददामि हे रम्बलम्बोदर दीनपाल सङ्गृह्यभक्तं कुरु मां पदस्ते हरिद्राम हरिद्रामभिरं गुलालं सिन्धूरकं ते परिकल्पयामि सुवासिदं वस्तु सुवासभूदैर्गृहाण ब्रह्मेश्वर शोभनार्थं तद सुकाद्या शिवविष्णुमुख्यामराधिपाः शेषमुखास्तदान्ये मुनीन्द्रकाः सेवकभावयुक्ता सभासनस्थं प्रणमन्दिढुण्डिं वामाङ्गके भक््रियुधा गणेशं सिद्धिश्च नानाविधसिद्धिभीष्टम् अत्यन्तभावेन सुसेवदेदु तु मायास्वरूपा परमार्थभूता ब्रह्मेश्वरं दक्षिणभागसंस्था बुद्धिकलाभिश्च सुबोधिकाभिः भी, विद्याभिरेवं भजते परेशा माया सुसाङ्ख्यप्रदचित्तरूपा प्रमोदमुख्या प्रभु पृष्ठभागे गणेश्वरं भावयुधा भजन्ते भक्तेश्वरामुद्गलशम्भुमुख्या शुकादयस्थं स्म पुरो भजन्ते गन्धर्वमुख्या मधुरं जगुश्च विश्वेश्यगीतं विविधस्वरूपं वी नृत्यं कलायुक्तमधो पुरस्ताच्चक्रुस्तथाख्यप्सरसो विचित्रम् इत्यादिनाविधभावयुक्तैः संसेविदं विघ्नपदिं भजामि चित्तेनध्यात्वादु निराजनं वै करोमि नानाविधदीपयुक्तम् चतुर्भुजं पाशधरं गणेशं तधा कुशं वै दधतं च दन्तं त्रिनेत्रयुक्तं ह्यभयन्धरं तं महोदरं चैकरदं गजास्यं सर्पोपवीदं गजकर्णधारं विभूदिभि ध्याये गणेशं विविधप्रकारै वी सम्पूजितं शक्तियुदं परेशं तदोजपं वै मनसा करोमि स्वमूलमन्त्रस्य विधानयुक्तम् असङ्ख्यभूतं गणराजहस्ते समर्पयाम्येव गृहाणढुण्ढे आरार्तिकं त्वेददपारदीपं कर्पूरभूतं प्रकरोमि पूर्णं चित्ते नलम्बोदर तद्गृहाणह्यज्ञानध्वान्ताखहरं निजानां गणेशवैघ्नेश्वरकै सुमन्त्रै सुमन्त्रितं पुष्पदलप्रभूदम् गृहाणचित्तेन मया प्रदत्तमपारवृत्त्या त्वधमन्द्रपुष्पम् अनन्दवृत्त्या स्तुतिमे कदन्दविघ्नेशचित्तेन कृतां गृहाण युक्तां श्रुति स्मार्तभवै पुराणै सर्वै परे श्याधिपदे मया वै प्रदक्षिणा मानसकल्पितास्ता गृहाण लम्बोदरभावयुक्ताः असङ्ख्यभूता विविधस्वरूपा दासान् सदारक्ष भवार्णवाद्वै न किं तदो विघ्नपदे गृहाण विविधस्वरूपाम् सङ्ख्याविहीनां मनसा कृतान्ते सिध्याच च बुद्ध्या परिपालयाशु न्यूनातिरिक्तं तु मया कृतं चेदं ते तदर्थं मनसा गृहाण दूर्वाङ्कुरान् विघ्नपदे प्रदत्तान् सम्पूर्णमेवं कुरुपूजनं मे क्षमस्व विघ्नातिपदे मदीयान् सदा पराधान् विविधस्वरूपान् वी मदीयभक्तिं सफलां कुरुष्व सम्प्रार्थयेकं मनसा गणेश मह्यं प्रसन्नेन गजाननेन दत्तं प्रसादं च शिरोभिवन्द्यम् स्वमस्तकेतं परिधारयामि चित्तेन विघ्नेश्वरमानदोऽस्मि गणेश उद्धाय सभां विहाय गतस्तदस्त्वन्दरधामशक्तया शिवादयस्तं प्रणिपत्य सर्वे गताशुचित्तेन च चिन्तयामि सर्वान्नमस्कृत्य ततो चित्तेन भक्त्या च गणाधिपन्तं स्वस्थानमागत्य महानुभावैर्भक्तैर्गणेशस्य च केलयामि एवं त्रिकालेषु गणाधिपन्तं चित्तेन नित्यं परिपूजयामि तेनैव तुष्टप्रददादुभावं विघ्नेश्वरो भक्तिमयं महान्तम् विघ्नेशपादोदकपानकमे त्यक्तगन्धस्य सुलेपनं तु निर्मात्यसन्धारणकं सुभोज्यं लम्बोदरस्यास्तु हि भुक्तशेषं करोमि यद्यच्च तदेव दीक्षा गणेश्वरस्यास्तु सदा परेश प्रसीद प्रसीदनित्यं तव पादभक्तं कुरुष्व मां ब्रह्मपदे दयालो शय्यामनर्घ्यां परिकल्पयामि मन्दारकार्पासकवस्त्रयुक्तां नानासु पुष्पादिभिरर्चितां ते विघ्नेश निद्रां कुरु सङ्गृहाणा सिद्ध्या च बुद्ध्या सहितं गणेशं सुनिद्रितं वीक्ष्य तथाहमेव गत्वा स्ववासं च करोमि निद्रां ध्यात्वा हृदि ब्रह्मपदिं तदीयः एतादृशं सौख्यमोखशक्ते देही मानसजं गणेश मह्यं च नृदारो भवा भक् रसलासोह गार्ग्य उवाच नित्यम महाराज गृत्समदो महायशाः। चकार मानसं पूजा योगींद्राण गुरस्व ये मानसं पूजाम। किष्य नरोतम पढ़िष्य सदा गणपतो भविष्य श्राविष्य यो मत्योष्य भाव संयु सक्रमेण मही पालभ्रम भूदो भविष्य दि। यदिचति दि तद सफल तस् अन्ते स्वानन्दगस्सोऽपि योगिवन्द्यो भविष्यति ॐ तत्सदि श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते गृत्समदप्रोक्तमानसपूजाकथनं नामाष्टत् त्रिंशत्तमोऽध्यायः ओम्